नमो हिरण्यबाहवे हिरण्यबाहवे सेनान्ये हिरण्यबाहव इति हिरण्यबाहवे सेनान्ये दिशाम् सेनान्य इति सेनान्ये दिशाम् च पतयेत् पतये नमः नमो नमः नमो वृक्षेभ्यः वृक्षेभ्यो हरिकेशेभ्यः हरिकेशेभ्यः पशूनाम् हरिकेशेभ्य इति हरिकेशेभ्यः पशूनाम् पतये पतये नमः नमो नमः नमः सस्तिञ्जराय सस्पिञ्जराय त्विषी मते द्विषी मते पथीनां त्विषी मत इति त्विषि स्मते पथीनां पतये पतये नमः नमो नमः नमो बभ्रुशाय बभ्रुशाय विव्याधिने विव्याधिनेना ्याधिन इति वि व्याधिने अण्णानाम् पतये पतये नमः नमो नमः नमो हरिकेशाय हरिकेशायोपवीतिने हरिकेशायेति हरि केशाय उपवेतिने पुस्तानाम् उपवेतिन इत्युप वीतिने पुष्टाणाम् पतये पतये नमः नमो नमः नमो भवस्य भवस्य हेत्यै हेत्यै जगताम् जगताम् पतये पतये नमः नमो नमः नमो रुद्राय रुद्रातता विने आतता विने क्षेत्राणाम् आतता विन इत्या आ, विने क्षेत्राणां पतये पतये नमः नमो नमः नमः सूताय हङ्काय अहङ्काय वनाम् वनाम् पतये पतये नमः नमो नमः नमो रोहिताय रोहिताय स्थपतये स्थपतये वृक्षाणाम् वृक्षाणाम् पतये पतये नमः नमो नमः नमो मन्त्रिणे मन्त्रिणे वाणिजाय वाणिजाय कक्षाणाम् कक्षाणाम् पतये पतये नमः नमो नमः नमो भुवन्तये भुवन्तये वारिवस्कृताय वारिवस्कृतायौषधीनाम् नमस्कृतायेति वारिवः कृताय ओषधीनाम् पतये पतये नमः नमो नमः उच्चैर्घोषाय उच्चैर्घोषाया क्रन्दयते उच्चैर्घोषायेत्युच्चैः घोषाय यते पत्नीनाम् आ क्रन्दयत इत्या क्रन्दयते पत्तीनाम् पतये पतये नमः नमो नमः नमः कृत्स्नवीताय कृत्स्नवीताय धावते कृत्स्नवीतायेति कृत्स्न भीताय धावते सत्त्वनाम् सत्त्वनाम् पतये पतये नमः नम इति नमः